सतम् तपोरतम् मन्दम् शनैः क्षपयते तुदन् जरत्कारुम् तपोलब्धम् चेतसं न हि नस्तत्तपस्तस्य तारयिष्यति सत्तमा छिन्नमूलान् परिभ्रष्टान् कालोपहतचेतसः अधः प्रविष्टान् पस्यास्मान्यथा दुष्कृतिनस्तथा अस्मासु पतितेष्वत्र सह सर्वैः स छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकम् ततः तपोवाप्यथवा यज्ञो यच्चन्यत्पावनम् महत् तत्सर्वमपरन्तात न सन्तत्या समम्मतम् सतातदृष्ट्वा ब्रूयांस्तम् तपोधना यथा दृष्टमिदम् चात्र त्वयाख्येयमशेषतः यथा दारान् प्रकुर्यात्स पुत्रानुत्पादयेत्यथा तथा ब्रह्मम् स्वयावाच्यः सोऽस्माकम् नाथवत्तया बान्धवानाम् हितस्येह यथा चात्मकुलम् तथा कस्त्वम् बन्धुमिवास्माकमनुसोचसि सत्तमा श्रोतुमिच्छाम सर्वेषाम् को भवा निहतिष्ठति महाभारते श्रीमहाभार आदिपर्वि आस्तीकपर्वि जगत्कारु पितृदर्शने पंचच्श्याय